श्रीमद्भागवत् महापुराणं दशमस्कन्ध अथ सप्तमोऽध्यायः सकटभञ्जन् औतृणा राजवाच येन येनावतारेण भगवान् हरेश्वरः करोति कर्णरम्याणि मनोज्ञानी च न प्रभो यतृण्वतोपैतरतिरुतृष्णा सत्वं च शुद्ध्यत्यचिरेण पुंस भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे कृष्णस्य तूकाचरितमद्भुतं मानुषं लोकमासाद्य तज्जाति मनुरन्धतः शेषो उवाच कदाचिद्दौत्थानीकौतुकाप्लवे धर्मक्षयोगे समवेतयोषिताम् वाजित्रगीतद्विजमन्त्रवाचकै चकारसूनोरभिसेचनं सती नन्दस्य पत्नी कृतमज्जनादिकं विप्रैकृतस्वस्तेनं सुपूजितै अन्याद्य वाससृगभीष्टधेनुभिः सञ्जातनिद्राक्षमशीर्षयच्छनैः औत्थानिकोऽसु क्यमनामनस्विने समागतान् पूजयति व्रजौ कषा देवाशृणोद वैरुदितं सुस्य सा रु रुतंर्थी चरणाबुदक्षिपद अदशयानस्य शिशोरनोल्पक प्रवालमृद्वङ् घृहतं व्यवर्तत विध्वस्तना रसकोऽप्यभाजनं व्यत्यस्तचक्राफ्य विभिन्नकूबरं दृष्ट्वा यशोदा प्रमुखा व्रजस्त्रिय औत्थानिकैकर्मणि या समागताः नन्दादयश्चाद्भुतदर्शनाकुलात् कथं शयं वैसक्तं सकटं विपर्यगात् उचोरव्यवसिंसितमतेन गोपानगोप्यश्च बालकाः धृतानेन पादेन क्षिप्तमेतन्न संशय न ते सद्धधिरे गोपा बालभासितमित्युत अप्रमेयं वरं तस्य बालकस्य न ते ऋदन्तं सितमादाय यशोदागृहशङ्किता कृतस्वस्त्यैनं विप्रै सूक्तयेस्तनमपायेत् पूर्वत्तापितं गोपैर्बलिभिः स परिक्षणं विप्राहुत्वार्चयाश्चक्रोर्दध्यक्षत कुशाम्बुभि येषु यानृतम्भे स्याहि सा मान विवर्जिता न तेषां सत्यशीलानाम् आशिषो विफलाः कृताः इति बालकमादाय सामग्यजृपाकृतैः जलैः पवत्रौषधिवे असिञ्च द्विजोत्तमैः वाचेत्त्वा स्वस्तैनं नन्दगोपसमाहितः भूत्वा चाग्निं द्विजातिभ्य प्रादादन्नं गावः सर्वगुणोपेता वासशृङ्गुङ्ममालिरे आत्मा या बुद्ध्यार्थाय प्रदात्ते तान् वियुञ्यत <coughs> विप्रामन्त्रविदो युक्ता स्थैर्या प्रोक्ता सुफलाः भविष्यन्ति न कदाचित् विस्फुटम् एकदारोहमारूढं लालयन्ते सुतं सते गरिमाणं शुचोर्वोढुं न सेहे गिरिकूटवत् भौमौ निधायितं गोपी विस्मृता भारपीडिता महापुरुषमादध्यौ जगतामासकर्मसु दैत्यो नाम्ना तृणावर्त कंसभृत्य प्रणोदितः चक्रवातस्य रूपेण जहारां सीनं नरम्भकम् गोकुलं चक्षुं सर्वमावृण्यन्मुष्णन् चक्षुंशिरेणुभि हीरियं सोमहाघोरशब्देन प्रतिशोदिश मुहूर्तमभवद्गोष्ठं रजसातमुषावृतं सुतं यसोदाना पश्यन्तस्मिन्नस्तवति यतः